हरि ओम् श्रीसीता रामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे सप्तविंश सर्गः वानरसैन्यस प्रधान यूथपतीनां परिचयः सा तु तेषाम् प्रवक्ष्यामि प्रेषमाणस्य यूथपा राघवार्थे पराक्रान्ता येन रक्षन्ति जीवितम् स्निग्धायस्य बहुव्यामा दीर्घलाङ्गूलमाश्रितः ताम्रा पीता सिता श्वेता प्रकीर्णा घोरकर्मणः प्रगृहीता प्रकाशन्ते सूर्यस्यैव मरीचयः पृथिव्याम् चानुकुष्यन्ते करो नाम एष लंका लङ्कारोहण तत्परः युथपाय हरिराजस्य किङ्करा समुपस्थितः नीरान्नेव महमेघान् तिष्ठतो या तु पश्यसि असिताञ्जनसङ्काशान् युद्धे सत्य पराक्रमान् असङ्ख्येयान्न अनिर्देशान् परम्पारम् विवो दधे पर्वतेषु च ये विषयेषु नदीषु च एते त्वाम् अभिवर्तन्ते राजन् वृक्षः सुदारुणः एषाम् मध्ये स्थितो राजन् भीमाक्षो भीमदर्शनः पर्जन्य इव जीमूतैः समन्तात् परिवारितः वृक्षवन्तम् गिरिश्रेष्ठम् अध्यात्तेन मदाम् पिबन् सर्वाक्षराणाम् अधिपती धूम्रो नाम एष यूथपः यवीया नस्य तु भ्राता पश्येन्दम् पर्वतोपमम् समानो रूपेण विशिष्टस्तु पराक्रमे स एष नाम महायूथपयूथपः प्रशान्तो गुरुवर्ती च सम्प्रहारेष्वमर्षणः सं, एतेन साह्यन्तु महत् कृतं चक्रस्य धीमतः दैवासुरे जम्भवतः लब्धः च बहवो वरः अरुह्य पर्वताग्रेभ्यो महाभ्र विपुलाशिला शिला मुञ्चन्ति विपुलाकारः न चै रुद्विजन्ति च राक्षसानाम् च सदृशो पिशाचानां च रोमशः एतस्य सैन्या विचनतीयमित जब संरधम प्रवमानं अवस्थित प्रेक्षंते वानरा सर्वे स्थितिपयूथपम यश राजक्षुपाते हरीशर बल्न बल संयुक्त दंभो नाम यूथप यस्ति योजने शैलं, गच्छन् पार्श्वे सेवते ऊर्ध्वम् तथैव कायेन गतः प्राप्नोति योजनम् यस्मात्तु परमम् रूपम् चतुःपासू विद्यते श्रुतसन्नादनो नाम वानराणाम् पितामह येन युद्धं तदादत्तं, दत्तम् रणे धीमतः पराजय च न प्राप्त वयम् यूथप यूथपः यस्य विक्रममाणस्य शक्रस्यैव पराक्रमः एष गन्धर्व कन्यायाम् उत्पन्न कृष्णवर्त्मना तदा देवासुरे युद्धे साह्यार्थम् त्रिदिवोकसाम् यत्र वै शरणणो राजा जम्बुम्पस्निभि निषेवते यो राजा पर्वतेन्द्राणाम् बहु किन्नरसे वित्नाम् विहार सुखदो नित्यम् धातु राक्षसाधिपे तत्रै बलवान रमते श्रीमान् बलवान् वानरोत्तमः युद्धेश्वरे कत्थनो नित्यम् क्रथनो नाम यूथपः वृतः कोटिसहस्रेण हरिणाम् समवस्थितः एषैवाशन्ततेलङ्गाम् वेनादिकेन मर्दितुम् यो गङ्गाम् अनुपर्येति प्रासयन् गज यूथ पन् हस्तीनाम् वानराणाम् च पूर्ववैरम् अनुस्मरन् ते च यूथपतिर्नेता गर्जन् गिरिगुहाशय हे गजान् वन्यान् आरुज महिर्वान् हरिणाम् वाहिनी मुख्यौ नदीम् हैमेव मनू उशीर बीजमाश्रित्य बन्दरम् पर्वतोत्तमम् रमते वानरश्रेष्ठो दिवि चक्रैव स्वयम् एनम् शतसहस्राणाम् सहस्रम् अभिवर्तते वीर्य विक्रम दृप्तानाम् नर्दताम् बाहुशालिनाम् स चैतेषाम् वानराणाम् महात्मनाम् स एष दुर्धरो राजन् प्रमाफीनाम यूथपः वातेनैवोधतम् मेघम् यमेनमनुपश्यसि अनेकमपि संरब्धम् वानराणाम् तरस्विनाम् उद्भूतम् ऋणाभासम् पवनेन समन्तत व्यवर्तमानम् भौशो। यत्रे तद्बहुलम् रजः एते मुखा घोरा गोलाङ्गुला महाबलः शतं शतसहस्राणि दृष्ट्वा वैसेतु बन्धनम् गोलाङ्गुलम् महाराज गवाक्षम नाम परिवार्या भिन्न नर्दन्ते लङ्काम् मर्दितु मोजस भ्रमरायचरिता यत्र सर्व काल फलद्रुमा यं सूर्य तुल्यवर्णाभम् अनुपर्येति पर्वतम् यस्य भाषा सदा भान्ति तद्वर्णा मृगपक्षिणः यस्य प्रस्थम् आत्मानो न त्यजन्ति महर्षय सर्व कामफला वृक्षः च महार्वाणि यस्मिन् पर्वत सत्तमे, तत्रै रमते राजन् रम्ये काञ्चन पर्वते मुख्यो वा न केसरी नाम यू सपः षष्टिर्गिरिसहस्राणि रम्या काञ्चन पर्वतः तेषां मध्ये गिरिवरे तमिव न रक्षताम् तत्रैके श्वेता साम्रास्याः मधुपिङ्गलः निवसन्त्यन्ति गिरौ तीक्ष्णदष्टः नखायुधः सिंहायैव चतुर्दंष्टः व्याघ्रायैव दुरासदः सर्वे वैश्वा नरसमा जलदाशी विक्षोपमः सुदीर्घाञ्चिन्तलाङ्गूलः मत्त मातङ्गसन्निभ महापार्वतसङ्काश महाजी मूत निःस्वनः वृत्तपिङ्गल नेत्रा हि सर्वे तस्थुल्लङ्काम् च मीक्षते अधिपति मध्ये तिष्ठति वीर्यवान् जयार्थी नित्यमादित्यम् उपतिष्ठति वीर्यवान् नाना पृथिव्याम् राजलतीय शंसते लाइनानीक मर्त विक्रा बलवा चूर पौरुषे स्व्यवस्थित रामना दया न कुरुते हरी गजो गवाक्ष गो नरो नील चेकमे योधा कोटिभिः भी दशभिर्भूतः तथा न्ये वा नर श्रेष्ठा विन्ध्य पर्वतवासिनः न शक्यन्ते बहुत्वा तु सङ्ख्यातुम् सर्वे महाराज महाप्रभावः सर्वे महाशैल निकाषिकाय सर्वे समर्था पृथ्वीम् क्षणेन कर्तुम् प्रवेदः सविकीर्णशैलाम् इत्यार्थे श्रीमद् रामायणे वाल्मिके अधिकारी युद्धकाण्डे सप्तविंशति विंश सर्गः श्रीसीतारामचन्द्रार्वणमस्तु